अथ श्रीमहाभारते आदिपर्वणि पञ्चाशत्तमोऽध्यायः मन्त्रिण ऊचुः ततः स राजा राजेन्द्रस्कन्धे तस्य भुजङ्गमम् मुने चुच्चाम आसज्य स्वपुरम् पुनरायययौ पृषेस्तस्य तु पुत्रोऽभूद्गविजातो महायशाः शृङ्गी नाम महातेजास्तिग्मवीर्योतिकोपनः ब्रह्माणम् समुपागम्य मुनिः पूजा चकारः सोऽनुज्ञातस्ततस्तत्र तदा सख्युः सकाशात् पितरम् पित्रा पुरा मृतम् सर्पम् समासक्तम् स्थाणुभूतस्य तस्य तम् वहन्तम् राजशार्दूलस्कन्धेनानपकारिणम् तपस्विनमतीवाथ तम् मुनिप्रवरम् नृप जितेन्द्रियम् कर्मण्यथाद्भुतम् तपसाद्योदितात्मानम् स्वेष्वङ्गेषु यतम् तदा शुभाचारं शुभकथम् सुस्थितं तमलोलुपम् अक्षुद्रमनसूयञ्च वृद्धम् मौनव्रते स्थितम् शरण्यम् सर्वभूतानाम् पित्रा विनिकृतम् तव शशापाथ महातेजाः पितरम् ते, ते पुत्रो महातेजा बालोऽपि सविरद्युतिः स रोषादिदमुवाचः पितरम् तेऽभिसन्धाय तेजसा प्रज्वलन्निव अनागसि मे मृतम् सर्पमवासृजत तम् नागस्तक्षकः क्षुद्रस्तेजसा प्रदहिष्यति आशीविषस्तिग्मदेजा मद्वाक्यबलचोदितः सप्तरात्रादितः पापम् पश्य मे तपसो इत्युक्त्वा प्रययौ तत्र पिता यत्रास्यसोऽभवत् दृष्ट्वा च पितरम् तस्मै तम् शापम् प्रत्यवेदयत् स चापि मुनिशार्दूलः प्रेषयामासते पितुः शिष्यम् गौरमुखम् नाम आचख्यौ स च विश्रान्तो मम पुत्रेण यत्तो भवमहीपते तक्षक स्वाम् महाराज तेजसा सौ दहिष्यति श्रुत्वा च तद्वचो घोरम् पिता मेजनमे जय यत्तो भवत्परित्रस्तक्षकात्पन्नगोत्तमात् ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते राज्ञः समीपम् ब्रह्मर्षिः काश्यपो गन्तुमैच्छत तम् ददर्शाथ तदा तमब्रवीत्पन्नगेन्द्रः काश्यपम् त्वरितम् विजम् क्व स्वरितो याति किञ्च कार्यम् चिकीर्षति आश्यप उवाच यत्र राजा कुरु श्रेष्ठः परिक्षिन्नाम वै द्विज तक्षकेण भुजङ्गेन धक्ष्यते किल सोऽद्यवै गच्छाम्यहम् त्वरितः सद्यः कर्तुमपज्वरम् मयाभिपन्नम् तम् चापि न सर्पो तक्षक उवाच किमर्थम् तम् मया दष्टम् सञ्चीवयितुमिच्छसि अहम् स तक्षको ब्रह्मन् पश्य मे वीर्यमद्भुतम् न शक्तस्त्वम् इत्युक्त्वा तक्षकस्तत्र सो सदष्टमात्रो नागेन भस्मीभूतो भवन्नगः काश्यपश्च ततो राजान्नजीवयतम् नगम् ततस्तं लोभयामास कामम् ब्रूहीति तक्षकः का। स एवमुक्तस्तम् प्राह काश्यपस्तक्षकम् पुनः धनलिप्सुरहं तत्रा यामीत्युक्तश्च तेन सह तमुवाच महात्मानम् गिरा यावद्धनम् प्रार्थयसे राज्ञस्तस्मात्ततोऽधिकम् गृहाणमत्त एव सन्निवर्तस्व चानघ